श्रीमन्महाभारतम् अथ आदिपर्वणि आस्तीकपर्वणि काश्यपागमने द्विचत्वारिंशोऽध्यायः शृङ्ग्युवाच यद्येतत्साहसन्तात यदि वा दुष्कृतम् कृतम् प्रियं वाप्यप्रियं वा ते वा गुक्ता न मृषा भवेत् नैवान्यथेदम् भवितापितरेश ब्रवीमि ते मृषा ब्रवीम्येवं स्वैरेष्वपि शमीक उवाच जानाम्युग्रप्रभावम् त्वां तातसत्यगिरं तथा नानृतं चोक्तपूर्वं ते नैतान्मिथ्याभविष्यति पित्रापुत्रो वयस्थोऽपि सततं वाच्य एव तु यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः किं पुनर्बालयेव तपसा भावितः सदा वर्धते च प्रभवतां महात्मनाम् सोऽहम् पश्यामि वक्तव्यम् त्वयि धर्मभृताम् वर पुत्रत्वम् बालताम् चैव तवावेक्ष्य च साहसम् सत्त्वम् शमपरो भूत्वा वन्यमाहारमाचरन् चरक्रोधमिमम् हत्वाम् धर्मम् प्रहास्यसि क्रोधो हि धर्मम् हरति यतीनाम् दुःखसञ्चितम् ततो धर्मविहीनानाम् गतिरिष्टा विद्यते क्षम एव यतीनां हि क्षमिणां सिद्धिकारकः क्षमावतामयम् लोकः परश्चैव क्षमावताम् तस्माच्चरेथाः सततम् क्षमाशीलो जितेन्द्रियः क्षमया प्राप्स्यसे लोकान् ब्रह्मण समनन्तरान् मया तु शममास्थाय यच्छक्यम् कर्तुमद्य वै तत्करिष्याम्यहं तात प्रेषयिष्ये नृपाय मम पुत्रेण शप्तोऽसि बालेन कृशबुद्धिना ममेमां घर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा सौतिरुवाच एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः परीक्षिते नृपतये दयापन्नो महातपाः सन्दिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च शिष्यं गौरमुखं नाम शीलवन्तं सोऽभिगम्य ततः शीघ्रम् नरेन्द्रम् कुरु वर्धनम् विवेशभवनम् राज्ञः पूर्वम् द्वाः पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः शमीकवचनम् घोरम् यथोक्तम् मन्त्रिसन्निधौ गौरमुख शमीको नाम राजेन्द्र वर्तते विषये तव ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः तस्य त्वया न रव्याघ्रसर्पः प्राणैर्वियोजितः अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च शान्तवाँस्तव तत्कर्मपुत्रस्तस्य न च क्षमे तेन शप्तोऽसि राजेन्द्रपितुरज्ञातमद्य वै तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति तत्र रक्षाम् कुरुष्वेति पुनः पुनरथा ब्रवीत् तदन्यथा न शक्यं कर्तुं केनचिदप्युत न हि शक्नोति तम् यन्तुम् पुत्रम् कोपसमन्वितम् ततोऽहम् प्रेषितस्तेन तव राजन् हितार्थिना सौतिरुवाच इति श्रुत्वा वचोघोरम् स राजा कुरुनन्दनः पर्यन्तप्यत तत्पापम् कृत्वा राजा महातपाः पञ्च मौनव्रतम् श्रुत्वा वने मुनिवरम् तदा भूय एवाभवद्राजाशोकसन्तप्तमानसः अनुक्रोशात्मतान्तस्य शमीकस्यावधार्य च पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषम् मुनेः न हि मृत्युम् तथा राजा श्रुत्वा वयसोऽन्वतप्यत अशोचदमरप्रख्यो यथा कृत्वेह कर्मतत तत् ततस्तम् राजा गौरमुखम् तदा भूयः प्रसादम् भगवान् ममेति वै तस्मिंश्च गतमात्रो मात्रेऽथ राजा गौरमुखे तदा मन्त्रिभिर्मन्त्रयामास सह संविघ्नमानसः संमन्त्र्यमन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित् प्रासादं कारयामास एकस्तम्भं सुरक्षितं रक्षाञ्च विदधे तत्र भिषजश्चौषधानि च ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वैन्ययोजयत् राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच सः मन्त्रिभिः सह धर्मज्ञः समन्तात् परिरक्षितः न चैनम् कश्चिदारूढम् लभते राजसत्तमम् वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते प्राप्ते च दिवसे तस्मिन् सप्तमे द्विजसप्तमः काश्यपोऽभ्यागमद्विद्वांस्तं राजानम् चिकित्सितुम् श्रुतम् हितेन तदभूत् यथा तु राजसत्तमम् तक्षकः पन्नगश्रेष्ठो नेष्यते यमसाधनम् तन्दष्टम् पन्नगेन्द्रेण करिष्येऽहमपज्वरम् तत्रमेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् तन्ददर्श स नागेन्द्रस्तक्षकः काश्यपम्पथि गच्छन्तमेक मनसं द्विजो भूत्वा वयोतिगः तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवं क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति काश्यप उवाच नृपं कुरुकुलोत्पन्नं परीक्षितमरिन्दमं तक्षकः पन्नगः श्रेष्ठस्तेजसाद्य तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा पाण्डवानाम् कुलकरम् राजानाममितौजसम् गच्छामि त्वरितम् सौम्य सद्यः कर्तुमपज्वरम् तक्षक उवाच अहम् स तक्षको ब्रह्मस्तम् धक्ष्यामि महीपतिम् न शक्तस्त्वम् मया दष्टम् काश्यप उवाच अहं तम् कैष्यामी ते बुद्धिर्द्या बल सबंता श्री महाभारते आस्तिक आदिपर्व आस्तीकपर्वि का काश्यपागमनेंशोध्याय